मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं ट्वेण्टि माघकृष्णचतुर्थीमाहात्म्यं श्रीगणेशाय नमः दशरथ उवाच संसृत्यवरदाया वै माहात्म्यं सर्वदं परम् अत्यन्तं कृतकृत्योऽहं जातो नास्त्यत्र संशयः नानेन सदृशं किञ्चिद्व्रतं सर्वार्धतं परं धन्यास्ते पुरुषा चदुर्धी व्रतकारकाः अधुना सङ्कटायाश्च माहात्म्यं वदविस्तराद न तृप्यामि सुधारूपां कथां श्रुत्वा समासदः मुद्गल उवाच येवं पृष्टो महायोगी वसिष्ठस्तमुवाचः तच्छृणुष्व प्रजानाथश्रवणानन्ददायकं वसिष्ठ उवाच तव भावम् विदित्वाकं सन्तुष्टो नृपसत्तम पुण्यवानसि येनत्वं त्वम् गणेशे भक्तिमानसि न ह्यल्पपुण्ययोगेन गणेशस्य महात्मनः कथायाम् जायते प्रीतिर्धन्योऽस्यत्र न संशयः कथां शृणु महाभागचतुर्थी संसृतां परां कृष्णपक्षे महापुण्यां सर्वसिद्धिप्रदायिनीम् अत्र ते कथयिष्यामि चेदिहासं पुरातनं महापुण्यप्रदः पूर्णश्रवणात् पठनाद् सहस्राख्ये पुरे राजन् शूरसेनो महीपतिः सभायां गानसंयुक्तो बभूवे भूपसेवितः तत्रा कस्माद्विमानं वैपदिदं ज्वलनप्रभं तद्दृष्ट्वा परमाश्चर्यं दूदान चोदयद दूदै संज्ञापितो राजाभिमानं द्रष्टुमुत्सुकः स ययौ नगरप्रान्ते पुरवासिभिरावृतः तत्रेन्द्रं देवयुक्तं स दृष्ट्वा विस्मितमानसः प्रणनामपदागत्वा दण्डवत्पृथिवीतले पुनरुद्धाय राजासौ कृत्वा करपुडं शनैः हर्षयोक्त उवाचेदं वचनं भक्रिसंयुधः शूरसेन उवाच धन्यं जन्मवयोदानं पितरौ नगरादिकं कृतकृत्योऽस्मि देवेन्द्र दर्शनात्ते सहानुगः वद कुत्र विभो गन्तुं कुतो व्रजसि वा स्थलाद लालहस्थे विमानं च कथं केन पुण्येन सर्वेषां दर्शनं च दे जातं देवसमूहेन वदाज्ञां किं करोम्यहं विमानचलने गुरुत्वं देवनायक केन पापेन ते यानं पतितं तद्वदस्वमे एवं पृष्ठो महादेजा महेन्द्रस्तमुवाचः विनीतं भक्तिसंयुक्तं राजेन्द्रहर्षसंयुधः इन्द्र उवाच कैवर्तको महापापी नामा विघ्नेश मा भजद मृद्गलेनोपदिष्टश्च नाम मन्द्रपरायणः सहस्रे तद्वरेणासौ वर्षेषु ब्राह्मणोत्तमः भ्रूमध्यान्निःसृदा शुण्ठा भुशुण्डी चाभवन्मुनिः तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते दर्शनार्थं गदोऽहं तु सम्पूज्येह समागमम् अत्रापि पापरूपस्य दृशावैश्यस्य कुष्ठिनः विमानं पतिदं भूमौ तव दूदस्य मानद यदि सङ्कष्टिका राज्यंश्च दुर्थी कृष्णपक्षगा साधिदा व्रतभावन तस्याः पुण्यं प्रदीयता तदा विमानमेवेदं चलेदत्र न संशयः नान्यथा पुरुषार्थश्च विमानचलनं भवेद् एतस्मिन्नन्तरे तत्र विमानं च समागदं समागतं गणेशस्य दूतयुक्तं महाद्भुतं तत्रैव नगरे भूपचण्डाली पापकारिणी अन्धा कुष्ठयुधात्यन्तं कृमिभारसमाकुला पूयशोनिददिग्धाङ्गा दुर्गधेन समावृता बभूव भिक्षयासा सा वैरदा जठरपोषणे पौष कृष्णतृतीयां निशा किञ्चावशेषिता मद्यपानं तया तत्र कृतं सुष्वापनिर्भया मद्यपानबलेनैव निद्रां लेभे तथां त्यजा चतुर्ध्यामुदिदे चन्द्रे जाते जागरिता भवद ततोऽपि क्षुधयाविष्टा रात्रीभिक्षार्थमेव च बभ्राम तत्र केनापि दत्तान्नं बुभुजे च सा पञ्चम्यां सा तत्र नृप सङ्गृह्यगाणपाः विमानेन ययुस्ते वै स्वानन्दे व्रतकारिणीम् गच्छन्ती वायुना स्पृष्टा विमानेन्द्यजजा नृप स वायुः सहसा गत्या स्पृशदिन्द्रविमानकम् व्रतकारिशरीरस्य स्पृष्टो वायुः सु पुण्यवान् विमानं चालयामास देवेन्द्रस्य महाद्भुतं तद्दृष्ट्वा विस्मिता सर्वे देवा मुनिगणादयः ज्ञानदृष्ट्या च तत् ज्ञात्वा शशंसु राजसत्तमम् इन्द्रे स्वर्गगदे वै राजा स्वनगरं ययौ विस्मितस्तं प्रणम्यैव वसिष्ठं मां समानयद मया विधियुधं तस्योपदिष्टं मुख्यकं व्रतं चकारस यथा न्यायमङ्गारकयुधं पुरा मा कृष्ण, कृष्णचतुध्योऽ स कृत्वा व्रतमनुत्तमं पुनः सम्पूज्य पञ्चम्यां गणेशं संस्थितोऽभवद एतस्मिन्नन्तरे तत्र विमानं सहसागतं गणेशदूतसंयुक्तं शूरसेनपुरे महद विमानाद्गणनाथस्य दूदा उत्तीर्यतं नृपं जगुर्वतप्रभावेण चलराजन् गणेश्वरं दूतानां वचनं श्रुत्वा राजा विस्मितमानसः प्रणिपत्य प्रबुज्यैव तानुवाच सुहर्षितः शूरसेन उवाच आरभ्य जन्मदो देव अद्यावधि मया घटाद यत्किञ्चिन्नागरैः सार्धम् सदा भुक्तं शुभाशुभम् अधुना तान् परित्यज्य कथं यामि गजाननं ततस्थं गणराजस्य दूदा ऊजुशृणुष्व तद गाणपत्या ऊचुः नागरैः सह राजेन्द्रचलत्वं विघ्ननायकम् यथा विधिव्रतस्यैव प्रभावेण महामदे यदा शास्त्रं व्रतस्यास्य महिमाकेन गम्यते अतो विश्वस्य चोद्धारे समर्थस्तु सुपुण्यतः ततो विहर्षितो राजा चतुर्वर्णजनैः सह नगरस्थैर्विमानं स समारुह्य स्थितो भवत् ततो गाणेशकैस्तत्र विमानं चालितं नृप न च चालजडीभूतं ध्यानयुक्ता बभूविरे ज्ञात्वा तं कुष्ठिनं त्यक्तुं गाणेशाश्च समागताः तान् प्रणम्य जगादासौ राजेन्द्रो रोदनाकुलः महापापी च वैश्योऽयं यस्य दृष्ट्या पपातः विमानं सुरनाथस्य तथापि शृणुत प्रियाः किमनेन कृतं पापं मां तदो वदत ह्यहं प्रायश्चित्तं करिष्याम्यनेन गच्छामि संयुतः ततस्तं गणनाथस्य दूदा ऊचुप्रकर्षिताः शृणु राजन् अयं वैश्यपूर्वजन्मनि वाडवः बुधनामा महापापी प्रारभ्य सर्वदा मादा पतिव्रता शाकिनी परिकीर्तिता दूर्वो नाम पिता चास्य तपस्वी वेदपारगः पत्नीपदिव्रता प्रोक्ता सावित्री कुलजा भवद यौवनस्तस्त्रियं त्यक्त्वा परस्त्री लालसो भवत कदाचित् गौडपुल्यां का वेश्यारु भवदी ययौ तां दृष्ट्वा विस्मितोत्यन्तं तया निरन्तरं हृत्वा गृहस्थं द्रव्यं स ददौ तस्यै विशेषदः पात्रभूषणकायं वै हृत्वा परगृहस्थितं चौर्यमद्यादिसंयुक्तस्तया रेमे सुदुर्मदिः कदाचित्सनिशायां वै नागदस्वगृहे नृप तदर्थमुनिमुख्योऽस्सौ दूर्वो बभ्राम तत्पुरे जनाकेऽपि न विप्रं त्वकथयस्तं विशेषदः पुत्रस्य दुर्विनीतस्य चरित्रं क्रोधभिधिदः गृहे गृहे स्वपुत्रं स नालभच्च तदो ययौ निशीथे स्वगृहे प्राप्ते पप्रच्छ वनितां द्विजः सोवाच नागदस्वामिन्पुत्रो पुत्रोमे स्वगृहे प्रभो एकपुत्रलेखवशात्पुनस्तं सोऽगवेषयत् निषीधे निद्रितलोके जनान् पप्रच्चमार्गगान् बुध कुत्र प्रदृष्टो मामेकं वदत पुत्रकम् एवं नानाजनास्तेन पृष्ठास्तेन जगुत्सुतं ततो भीमो त्यजो वृद्धो मिलितस्तं जगादसः तेनैव कथितं स्पष्टम् पुत्रो वेश्या गृहे स्थितः मध्यभक्तिं पृच्छसि त्वं तपस्विन् जातिदूषणं तस्य तद्वचनं श्रुत्वा विस्मिदो मुनिपुङ्गवः वेश्या गृहे स्वपुत्रं तं दृष्टो वाच मदान्विदं किं त्वं मध्यपवेश्याय गृहे तिष्ठसि दूषक अधुना देहमुत्सृज्य व्रचस्व यममन्दिरे पुन्नामनरकात्रादापुत्रस्तेन प्रकीर्तितः नरकप्रदयेवं मे किमर्थम् पुत्र आगतः एवम् पितुर्वच श्रुत्वा बुधक्रोधसमन्वितः लप्तया ताडयामास पितरम् पुनः पुनः वृद्धः क्षुधातुरसोऽपि मर्मस्थाने प्रहारदः ममारतं प्रगृह्यासौ बुधश्चिक्षेप्वै बहिः प्रभादे स्वगृहे पुत्रमागतं सा बुधं तदः जननीलेखसंयुक्ता पप्रच्छ कस्थितं त्वया गवेषितुं सदे पुत्र पिता त्वं प्रजगामः तमानयमहाभाग तदस्नानं समाचर माधुर्वचनमेवं स बुधश्रुत्वा पुनः पुनः क्रोधयुक्तस्वयष्ट्यातां ताडयामास मस्तके मस्तकस्फुटितस्तस्याः ममारतपस्विनी बहिप्रक्षिप्य तां वेष्या गृहमागात्स हर्षितः अदहंस्तौ जनाः सन्तो ब्राह्मणी ब्राह्मणं तथा पितृगौरवभावेन राजा तं न शशासः पुनर्गृहागदं सातं उवाच किं कृतं स्वामिन् पितुर्मादुर्वधात्मकं वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो सर्वावयवसम्पूर्णा सुन्दरी धर्मपालिनीं चतुरा करजेष्वेव नरदेहसुदुर्लभः ज्ञानकर्मादि संयुक्तस्तत्र ब्राह्मण्यगम् कुतः ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मदिः निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः तथा कृतं त्वया नाथ तेनाहम् महामदे गहामदे यमात्मा तखान स्वय्ठित का मेदे न मगगां स्वे गा बुधो गास्व गुरो अयद गुरपत्नी सुदुर्मतिः दारुणानि च पापानि एवं नानाविधानि सह चकारान्ते गृहे याम्ये यादनां बुभुजे ततः भुक्तभोगस वैश्योऽयं जाधकुष्ठसमन्वितः पापाचरणमत्रापि कुरुते दारुणं द्रव्यलोभार्धमेवायं वने गत्वा द्विजादिकान् हन्दिनित्यं सदीनां च सवने दूषको भवद शूरसेन अतस्त्यक् वैनं याहित्वं गजाननम् अस्य स्पर्शनराजेन्द्र सच्चैलं स्नानमापतेत् दूतानां वचनं श्रुत्वा कम्पितो राजसत्तमः जगाद तान् प्रणम्यैव आहा कृत्वा सुदारुणं शूरसेन उवाच पापानां गणनास्ति प्रायश्चित्तं न विद्यते अधुना तादृशं चात्र मया किं क्रियते गणाः कृपया सर्वपापानाम् प्रायश्चित्तम् कध्यतां कभ्यताम् तत्करिष्यामि देहपादावधिम् किल ततस्तम् गाणपत्यास्ते ब्रुवन् हर्षसमन्विताः गजानन इति प्राज्ञश्रवयस्व जनाधमं चतुर्वेदसमुद्भूतं सारं ब्रह्ममुखोद्गतं चतुर्मुखैश्च सङ्गीतं सुयोगनगजाननं तेषां वचनमाकर्ण्य शूरसेन प्रकर्षितः गजाननेदि वैश्यस्याजपत्कर्णे स सादरः श्रुत्वा पापविनिर्मुक्तो वैश्यस्वर्णतनुर्यथा कुष्ठहीनः स शोभाभियुक्तो वै हर्षितो भवत ततः सर्वैः समायुक्तो नगरस्थै विशेषतः चतुराकार राजा ययौ विघ्नेशमादराद स्वानन्दे गणकम् दृष्ट्वा ब्रह्मभूताश्च जन्तवः बभूवुस्स याजा गणपत्यो बभूवः ब्रह्मभूदस्स राजेन्द्रो व्रतपुण्यप्रभावदः चन्दुभिः सहितश्चाधकोदो वर्णयितुं व्रतं चतुर्विधं जगत्सर्वसङ्कष्टं सम्मदं नृप तत्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः इदं माकचतुर्थ्यास्तु सङ्घष्ट्या संशृणोधियः माहात्म्यं वापि पठति सर्वार्थलभते परम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माककृष्णचतुर्थी माहात्म्यवर्णनं नाम विंशोऽध्यायः ओ